श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्याम् नमः अथ श्रीशिवमहापुराणे विद्येश्वरसंहितायाम् त्रयोविंशोऽध्यायः रुद्राक्षमहात्म्यम् शिवनाम महिमा च वृषयो सूतसूत महाभागव्यासशिष्य नमोस्तु ते तदेव व्यासतु ब्रूहि माहात्म्यमुत्तमम् तथा दुरुद्राक्षमाहात्म्यम् नाम माहात्म्यमुत्तमम् त्रितयम् ब्रूहि सुप्रीत्य ममानन्दय मानसम् साधुपृष्टम् भवद्भिश्च लोकानाम् हितकारकम् भवन्तो वै मह धन्य पवित्राय कुलभूषणः येषाम् चैव दैवतम् परमम् शुभम् सदाशैव कथालोके वल्लभा भवतां सदा ते धन्या च कृताथा च सफलम् देहधारणम् उद्धूतम् च कुलम् तेषाम् ये शिवम् तमुपासते शिवनाम्ब मुखे यस्य सदाशैव शिवेति च पापानेन सृजन्त्येव कदिराङ्गारम् श्रीशिवाय नमस्तुभ्यं मुखम् व्याहरते यदा तन्मुखम् पावनम् तीर्थम् सर्वपापविनाशनम् तन्मुखम् च तथा यो वै पश्यति प्रीतिमान्नरः तीर्थजन्यम् फलम् तस्य भवतीति सुनिश्चितम् यत्र त्रयं सदा तीर्थेत् एतत् शुभतरम् द्विजा तस्य स्पर्शनमात्रेण वेणी स्नानफलम् लभेत् शिवनाम विभूति च तथा रुद्राक्ष च एतत् त्रयम् त्रिवेणी सदृशम् स्मृतम् एतत् त्रयम् शरीरे च यस्य तिष्ठति नित्यशः निस्तस्यैव दर्शनम् लोके दुर्लभम् पापहारकम् तद्दर्शनम् यथा वेणी नोभयोरन्तरम् मनः एवम् यो न विजानासि स पापिष्ठो न संशयः विभोति यस्य नो भाले नाङ्गे रुद्राक्षधारणम् नास्ते शिव मृद्मीवाणी तन्त्यजेदधमम् यथा शैवम् नाम यथा गङ्गा यमुना मता रुद्राक्षम् विधिना प्रोक्ता सर्वपापविनाशिनी शरीरे च त्रयम् यस्य तत्फलम् चैकतस्थितम् एकतो वेणिकाया च स्नानजम् तु फलम् बुधै तदेवम् तुलितं पूर्वम् ब्रह्मणा हितकारिणा समानम् चैव तज्जातम् तस्माद्धार्यं सदा बुधै तद्दिनं हि समारभ्य ब्रह्मविद्वादिभिस्वरैः धार्यते तृतयं तच्चे दर्शना पापहारकम् दृशे उचु इदृशं हि फलं प्रोक्तं नामासीत् तृतयोद्भवं तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत सुतवाच ऋषयो हि महाप्राज्ञा स चैव ज्ञानिनाम् वरः तन्माहात्म्यम् हि सद्भक्त्या शृणुतः धरतो द्विजः स गूढम् अपि छात्रेषु पुराणेषु श्रुतिष्वपि शु। शु। भवत्स्नेहान्मया विप्रकाश क्रियते धुना कस्तत् त्रितयम् माहात्म्यम् सञ्जानाति द्वियोजोत्तमा महेश्वरम् विना सर्वम् ब्रह्माण्डे सदसत्परम् पच्यहम् नाम माहात्म्यम् यथा भक्ति समासृतः श्रुणुते प्रीतितो विप्रा सर्वपापहरम् परम् शिवेति नामदावाग्ने महापातकपर्वतः भस्मीभवञ्च नायास सत्यं सत्यं न संचयः पापमूलानि दुःखानि विविधान्यपि शौनक शिवनामैकनस्यानि नान्य नस्यानि सर्वथा स्ववैदिकः सुण्यात्मा स्वधन्यः स बुधो मतः शिवनाम, शिवनाम जपासक्तो यो नित्यम् भुवि भवन्ति विविधा धर्म तेषां सद्ये फलोन्मुखा येषां भवति विश्वास शिवनाम जपे मुने पातकानि विनश्यन्ति यावन्ति शिवनामतः भुवि तावन्ति पापानि क्रियन्ते नरेने ब्रह्महत्यादिपानां राशिन प्रति प्रमितान्मुने शिवनाम धृतम् प्रोक्तम् नाशेत्यखिलान्न शिवनामतरिम् प्राप्य संसाराब्धिं तरन्ति ये संसारमूलपापानि तानि नश्यन्त्य संशयम् संसारमूलभूतानां पाचकानाम् ह मुने शिवनाम कुठारेण विनाशो जायते ध्रुवम् शिवनामामृतम् पेयम् पापदावान् पापदावाग्नितप्तानाम् शार्ति तेन विना न हि शिवेति नाम पीच वर्ष धारा परिप्लता संसारदव मध्येऽपि न शोचन्ति कदाचन शिवनाम्नी महद्भक्ति दाप्ता येषाम् महात्मनाम् तद्विधानां तु स मुक्तिर्भवति सर्वथा अनेकजन्मभिर्येद तपस्तप्तम्नीश्वरे शिवनाम्नी भक्ति सर्वपापहारिणी यस्या साधारणी शम्भो नाम्नी भक्त्यखण्डिता तस्यैव मोक्ष सुलभ नान्यस्येति मतिर्मम कृत्वाप्यनेकपानि शिवनाम जपादरः सर्वपापविनिर्मुक्तो भवत्येव न संशयः भवन्ति भस्मसा दृक्षा तव दग्ना यथा वने तथा तावन्ति दग्धानि पापानि शिवनामतः यो नित्यम् भमपूताङ्ग शिवनाम जपादरः स्वतरत्येव संसारम् अगोरं शौनक ब्रह्मस्व हरणम् कृत्वा अत्रापि ब्राह्मणान् भवन् न लिप्यते नरपापै शिवनाम जपादरः विलोक्य वेदान किलान् शिवनाम जपरम् संसारतारणोपाय इति पूर्वैर्विनिश्चितम् किम् बहुख्यामुनि श्रेष्ठ लोकेनैकेन वच्म्यहम् शिवाभिधानमाहात्म्यम् सर्वपाप सर्वपापहरणम् पापानाम् पापा हरणम् शम्भ नाम, नाम शक्तिर्हि पावने शक्नोति पातकम् तावत् कर्तुं नापि न रक्वचेत् शिवनाम प्रभावेण लेभे सद्गतिमुत्तमाम् इन्द्रद्युम्न नृपपूर्वम् महापापयुतो मुने तथा काचित् द्विजायुषा असौ मुने बहुपापिनी शिवनाम प्रभावेण लेभे सद्गतिमुत्तमाम् इत्युक्तम् बोधय श्रेष्ठ माहात्म्यमुत्तमम् शृणुधम् भस्म माहात्म्यम् सर्व इति श्रीशिव महापुराणे प्रथमायाम् विधेश्वरसंहितायाम् साध्यसाधनखण्डे शिव नाम पावना श्री नाम, नाम त्रयोविंशोऽध्यायः श्रीगौरी